वासवप्रतिमोयेन जरासन्धोऽति दुर्जयः विजितो बाहुयुद्धेन देहभेदञ्च लम्भितः द्रोणं द्रौणिं च साधुत्वं पिता पुत्रौ महारथौ स्तुहि स्तुत्या उभौ द्विजसत्तमौ ययोरन्यतरो भीष्म सङ्क्रुद्धः सचराचराम् इमां वसुमतीम् कुर्यान्निःशेषामिति मे मतिः द्रोणस्य युद्धे न पश्यामि नराधिपम् भीष्म न च तौ पृथिव्याम् सागरान्तायाम् यो वै प्रतिसमो भवेत् दुर्योधनम् त्वम् राजेन्द्रमतिक्रम्यमहाभुजम् जयद्रथम् च राजानम् कृतास्त्रम् दृढविक्रमम् द्रुमम् किम् पुरुषाचार्यम् लोके प्रथितविक्रमम् अतिक्रम्यमहावीर्यम् किं प्रशंससि केशवम् वृद्धं च भारताचार्यं तथा शारद्वतं कृपम् अतिक्रम्यमहावीर्यं किं प्रशंससि केशवम् धनुर्धराणां प्रवरं रुक्मिणं पुरुषोत्तमम् अतिक्रम्यमहावीर्यं किं प्रशंससि केशवम् भीष्मकम् महावीर्यं महावीर्यम् दन्तवक्त्रम् च भूमिपम् भगदत्तम् यूपकेतुम् जयत्सेनम् च मागधम् विराटद्रुपदौ चोभौ शकुनिम् च बृहद् बलम् विन्दानुविन्दावावन्त्यौ पाण्ड्यम् सुमहाभागम् वृषसेनं मानिनं मानिनम् एकलव्यञ्च विक्रान्तम् कालिङ्गम् च अतिक्रम्य महावीर्यं किं प्रशंससि केशवम् शल्यादीनपि कस्मात्त्वम् न स्तवाय यदि बुद्धिर्वर्तते भीष्म सर्वदा